मुद्गलपुराणं कण्डं टु एकदन्तचरितम् अध्यायं सेवेण्टि त्रि गृक्समदप्रह्लादसंवादं श्रीगणेशाय नमः गृक्समद उवाच एवं नानावताराय एकदन्तस्य धीमदः तेषां चरित्रविस्तारं मया वक्तुं न शक्यते यत्र वेदादयो दैत्य न समर्था भवन्ति वै तत्र कोऽहं महासाधो स्वल्पबुद्धिप्रधारकः गणेश एकदन्तोऽयं सोऽहं ब्रह्मणि संस्थितः देहिनां ज्ञानदाने च स्वस्व्यापारके प्रभुः एकदन्तः स सर्वस्य पूर्णयोगस्य धारकः तत्रार्थान्तरभावे न ज्ञातव्यो परः एकवाच्या महामाया तत्र सत्ताप्रधारकः दन्तश्च मायिकप्रोक्तस्तयोर्योगे हि सस्मृतः तम्भजस्वमहाभागप्रहलादविधिपूर्वहम् नष्टशापश्च भावि त्वमेकदन्तप्रसादः मुद्गल उवाच पुनर्घृत्समदम् प्राहप्रह्लादो विनयान्विदः गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः प्रह्लाद उवाच विष्णुभक्तोहमत्यन्तं मुने जन्माधिधः खलु अधः केन प्रकारेण भजामि गणनायकं सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वा मदः प्रभो वद सर्वं गणेशस्य योगसाधनमुत्तमम् गृत्समद उवाच गणेशस्यावताराश्च चत्वारः परिकीर्तिताः गौणांस्तांस्ते वदामिह संशयच्छेदनाय वै स्वानन्दनगरे देवो गणेशा नः स्वयं ससर्जलीलार्थं जगद्ब्रह्मा सुरेश्वर तेषु नानाविधां क्रीडां करोति गणनायकः जगत् सुब्रह्मजानीहि स त्वं तं योगसेवया स ब्रह्मणि च दुर्धा वैजाधक्रीडार्थमादराद पञ्चमो निजलोकस्तस्तेषाम् संयोगधारकः स दुरोमोहयित्वा वै मायया स गणेश्वरः तिष्ठति स्वस्वरूपेण तेषाम् हृदि गजाननः नामरूपात्मकेष्वेव ब्रह्म यत्परितिष्ठति जानीहि वेदेषु तदसद्रूपं चक्रिवाचकम् तेष्वात्मा मृतरूपश्च भानुः सद्रूपवाचकः तयोरभेदभावेष्वानन्दो विष्णुः उच्यते त्रिष्वव्यक्तस्वरूपं यन्नेधि कर्ता विशेषतः तुर्यो वेदे प्रकथ्यते चतुर्नाम चे स्वानंदर्ति त्रह्मगणनाथ नानाखेलोंगवता चर परीर्ति चुर्भाव प्रसिद्य गौणूस्व आनन्दात्मकदांशेन विष्णुं गणपरूपिणं जानीहितं गणेशानन्नभिन्नं दानवोत्तमं चतुर्णां भजनेनैव मनःशुद्धिमवाप्नुयाद ततो गणेशयोगे सोधिकारी भवति स्वयं यथाश्रमविभागेन नरक्रमपरायणः एकं त्यक्त्वा स गृह्णादि द्वितीयं भक्तिसंयुधः अन्ते योगी स शान्तिस्थ आश्रमैरहितो भवेद् तद्वत्क्रमेण गाणे श भवेयुर्वैष्णवादिकाः अधुना शृणुदेवस्य साधनं यो परं साधयित्वा स्वयं योगी भविष्यदि स्वानन्दस्य विहारेण संयुक्तश्च विशेषतः सर्वसंयोगकारित्वाद्गणेशो माययायुधः विहारेण विहीनश्च योगो निर्मायिकस्मृदः संयोगाभेदहीनत्वाद् भवः गणनायकः संयोगायोगयोर्योगपूर्णयोगः प्रकीर्तितः प्रह्लादगणनाथस्तु पूर्णो ब्रह्ममयः परः योगेन तं गणाधीशं प्राप्नुवन्तीह योगिनः तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यपक् बुद्धिः जादा चित्तरूपा स्वभावतः क्षिप्तं मूर्ढं च विक्षिप्तमेकाग्रं च निरोधकं पञ्चथा चित्तवृत्तिश्च सा माया क्षिप्तं मूढं च चित्तं यत्कर्मण्यपि विकर्मणि संस्थितं तेन विश्वं वै चलति स्वस्वभावतः अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितं सम्प्रज्ञातसमाधिस्तं साधु जानीहि सत्तमा निरोधसंज्ञ चित्तं निवृत्तेरूपतारकम् असम्प्रज्ञादयोगस्तं जानीयाद्योगसेवया पञ्चथा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता माया सा गणनाधस्य त्यक्तव्या योगसेवया सिद्धिर्नानाविधा विधाप्रोक्ता भ्रान्तिता तत्र सम्मदा सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवन्त्यधः धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या सदा मोहदा सिद्धिरत्यन्तं मोहधारकदां गदा बुद्धिश्चैव स सर्वत्र ताभ्यां केलदि विघ्नपः बुद्ध्या यद्बुध्यते तत्र पश्चान्मोहप्रवर्तते अदो गणेशभक्त्या समायाभ्याम् वर्जितो भवेद पञ्चधा चित्तवृत्तिम् च पञ्चधा सिद्धिमादराद त्यक्त्वा गणेशयोगेन गणेशम् भज भावतः ततः स गणराजस्य मन्त्रम् तस्मै ददौ स्वयम् गणानां त्वेदि वेदोक्तं सविधिं मुनिसत्तमः तेन सम्पूजितो योगी प्रह्लादेन महात्मना ययौ गृत्समदो दक्षस्वर्गलोकं विहाय सा प्रह्लादश्च साधु साधयित्वा विशेषदः योगी योगीन्द्रवन्द्यः स शान्ति सन्धारकोऽ भवद विरोचनाय राज्यं स ददौ पुत्राय दैत्यभ गणेशभजने योगी संसकृतः सर्वदा भवद सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकं गणेशेन धृतं सर्वं कलां शेनन संशयः एवं ज्ञात्वा महायोगी प्रह्लादो भेदमाश्रितः कृतिचिन्तामणिं ज्ञात्वा भज चानन्यभावतः स्वल्पकालेन दैत्येन्द्रशान्तियोगपरायणः शान्तिं प्राप्तो गणेशे चैकभावस्सो भवत्परः शापश्चैव गणेशेन प्रह्लादस्य निराकृतः न पुनर्दुष्टः सङ्गेना भवद्भ्रान्तः समानदः ये वं मदं परित्यज्यैकदन्तस्य महायोगी प्रह्लादसं बभूवः यदत्प्रह्लादमाहात्म्यं पठेत्तु तस्य वैदक्ष भवेदीप्सि तदायकम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते गृत्समदप्रह्लादसंवादसमाप्तिवर्णनं नाम त्रि सप्ततितमोऽध्यायः ओ